श्री श्रीगृभ्योन्नमः हरिः ॐ गणानां त्वा गणपतिगङ्घवामहे कविं कवीनामुपमस्रवस्तमं द्वेषराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोतिभिश्चीदसादनम् ॐ हंसहंसाय विद्महे परमहंसाय धीमहि सन्नो हंसप्रचोदयात् ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतये उमापतये पचुपतये नभो नमः ऋतगं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं वे विश्वरूपाय वै नभो नमः ईशान सर्वविद्यानाम् ईश्वर सर्वभूतानां ब्रह्माधिपतिं ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो ॐ भूर्भुवसुवः ॐ नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ निदनपतये नमः निदनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाजनमः हिरण्याजनमः हिरण्यलिङ्गाजनमः सुवर्णाजनमः सुवर्णलिङ्गाजनमः दिव्याजनमः दिव्यलिङ्गाजनमः भवाजनमः भवलिङ्गाजनमः सर्वाजनमः सर्वलिङ्गाजनमः शिवाजनमः शिवलिङ्गाजनमः ज्वलाजनमः ज्वलिङ्गाजनमः आत्माजनमः आत्मलिङ्गाजनमः परमाजनमः परमलिङ्गाजनमः एत सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति प्राणिमन्त्रं पवित्रं सद्यो जातं प्रपद्यामि सद्यो जाता य वै नभो नमः भवे भवे भवे भव भवोद्भवाय नमः वामदेवाजनमो ओ ज्येष्ठा जनम श्रेष्ठा जनमो रुद्राजनम कालाजनम कलविकरणाजनभो बलविकरणाजनभो बलाजनभो बलप्रमथना जनम सर्वभूतदमना बल जनमो, जनमो, जनमो मनोन्मना जनम अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्य सर्वेभ्य सर्वे एभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः सर्वो वैरुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वैरुद्रस्सन्महोलभो लभः विश्वं भूतं भुवनं चित्रं बभुधा जातं जायमानं च यत् सर्वोषे सर्वुद्रस्तस्मै रुद्राय नमोऽस्थो कद्दुद्राय प्रचेतसे मेढुस्तमाय तव्यसे वोचे मसन्तमघं हृदे सर्वोचे सर्वद्रस्तस्मै रुद्राय नमोऽस्थो त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वालुकुमिव बन्धनात् मृत्योर्मुक्षीयमामृता आत् ये ते सहस्रमयुतं पाशा मृत्यो मर्त्या जहन्तवी तान् यज्ञश्च मायजा सर्वा नव यजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा आम् ॐ नमो भगवते रुद्राय वैष्णवे मृत्युर्मे पायी ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदया आत ॐ नमस्ते अस्तु भगवन विश्वेश्वराय महादेवाय त्यम्भकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॐ शं प्रियं च मेनुकामश्च मे कामश्च भद्रं च मे श्रेयश्च वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महच्च मे संविच्च च मे शुच्यं मे प्रसुच्यं च मे लयश्च मरितं च मे मृतं च मे यक्ष्मं च मे नामयच्च जीवातुश्च मे दीर्घायुत्वं च मे धित्रं च मे भयं च मे सुगं च मे शयनं च मे शूषा च मे सुदिनं च मे चदाशिवो ॐ शान्तिः शान्तिः शान्तिः ॐ असतोमासद्गमय तमसोमा ज्योतिर्गमय मृत्योर्ममृतं गमय यो वेदादौश्वरप्रोक्तो वेदान्ते च प्रतिष्ठिता तस्य प्रकृतिलीनस्य परस्य महेश्वर सदा शिवो ॐ शान्ति शान्ति शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु